ण्डे षष्ठप्रश्नप्रारम्भः वसन्तमेव नाम वरन्धे तनो न पादं क्ष्ममेवावन्द इडो यजदि वरुषा एवावृन्दे बहिर्यजदि शरदमेवावन्दे स्वाहाकारं यजदि हेमन्तमेवावृन्दे तस्मात् स्वाहा कृता तस हेमन्दश्वावसीरन्ते समिधो यजुषस एव देवता नामवृन्धे तनोनपादयं यजदि यज्ञमेवावृन्ध इडोयदिशोदेवावृन्धे बरिहर्यजदि प्रजामेवावृन्धे समानयस्तेजो वाद्यं जा स्वेव तेजो ददाति स्वाहायजति वाचमेवावरुन्धे दशाक्षराडन्नं समिधो यजत्यस्मिन्नेव लोके प्रतिष्ठति तनो न पादयजतिवान्तरिक्षे प्रतिष्ठतिडा यजति पशुष्वेव प्रतिष्ठति बहिर्यजति एव देवयाना पन्थानस्तेष्वेव प्रतिष्ठति स्वाहाय एव लोके प्रतिष्ठत्येतावन्तो वै देव लोकास्त्येष्वेव य पूर्वं प्रतिष्ठति देवासुरा येषु दे लोकेष्वस्पर्धं दते दे देवा प्रया लोकेभ्य सुरान् प्राणदं ददप्रयाजानाम् प्रयायतं यदुष प्रयाजायुज्यन्ते प्रैभ्यो लोकेभ्यो भ्रातु्यान्नजते विक्रामं योत्यभियुत्यो वै प्रयाजानाम्यथनं वेद प्र जया पशुभर्मि धेद्यायैर्नपातमेकमिवमि दृढो बह्वीजति बहिरेकमिवमि ध्याय देवानां वा याजा यज्यं देवन्मैवज्ञाय क्रियदेवन्मयमानायुजाेतस्माश्चात् देवाभि पुराक्षोऽभ्यै स्वाहाकारेण प्रयाजेषु यज्ञो सप्यवश्यन्त कृ स्वाहा कारेण प्रयाजेषु संस्थापयन् विवाह एतद्यज्ञं छिन्द यत्स्वाहाकारेण प्रयाजेषु सर्गस्थापयन्ति प्रयाजा निष्वाहवि ै प्रयाजा प्रजाय प्रयाजा कथा पुत्रस्य केवलं कथा साधारणं स्कन्दमेव दद्य प्रयाजे स्कन्दति गायत्र्येव तेन कर्बन्दते प्रजां पशो नियुजमानाय प्रज चक्षुषी वा एते यज्ञस्य यदाज्यभागो यदाज्यभागो यजति चक्षुषि एव यज्ञस्य प्रतिददाति पूर्वार्थे तस्मात् पूर्वार्ध्यचक्षुषि प्रवाहुद्वाहजतस्मात् प्रवाहुचक्षुषी एव लोकं वाग्निनायजमानो न पश्यति लोको सोमेनोत्तराध्ये भीमो लोका लोकयोर्णख्याचीराजानुपा एतौ देवतानान्यैशोमान्तरा देवता युज्येते देवतानां विधृत्येतस्मात्राज्ञा मनुष्या विधृता ब्रह्मवादिनोये नान्यतो दतश्च पशोन्दाधारो भयतो दतश्चेच्छनोत्याभागस्य यजिते नान्यतो दतोदाधानर्चमनोच्चविषुजा यजितेन भजतो दतोदाधारमोर्धी समानाना जात्यका ैव सप्तपदान् यस्यैवीर्येण प्रजातान् भ्रातृयान्न प्रतिजनिष्यमाणान् यस्यैवीर्येणभयोर्लोकयो ज्योतिर्धत्यै यस्यैवीर्येण पूर्वार्थेनान्धनक्ष् लक्ष्मापुराणुवाक्या भवति जातानेव प्रादुर्व्यान् प्रणुदत उपरिष्टाल् लक्ष्माया च लिष्यमाणानेव प्रतिनुदते पुरस्ताल्लक्ष्मापुराणवाक्या भवत्यस्मिन्नेव लोके ज्योतिर्धत्त उपरिष्टाल् लक्ष्मायात्यास्मिन्नेव लोके ज्योतिर्धत्ते ज्योतिष्मन्दावस्मा इमौ लोको भवतो एवं वेद पुरस्तान् लक्ष्मापुराणवाक्या भवति तस्मात् ष्टाल्लक्ष्माया एवं वेदौ वज्र आज्यं वज्र आच्यभागौ वज्रमेव वज्रगौ सम्भृत्यभ्रातृयायप्रहरत्यछम्ब्कारमभगो यवषट्करा तस्तृप्त्यै गायत्री पुराणवाक्याच्या ब्रह्मण्येव क्षत्रमन्वारम्भयति तस्मात् ब्राह्मणा याज्ञया गमगितवाक्यया दृत्यै प्रयच्छति त्रिपदा पुराणुवाक्या भवति त्रयिमे लोका एष्वेव लोके प्रतिष्ठति जतुष्पदा याज्ञा जुलुष्पद एव पशो न वृन्धे त्रिक्षुरोपषट्कारो विपाद्यजमानः पशुष्वेव बातिष्ठति गायत्री पुराणुवाक्या भवति देवादिक्षुन्तरशिक्नुवर्यदेवम् वेदशिग्मात्येवेच्छिक्षति यावेवेभ्यो हिज्ञान्यादिषत्स आत्मन्नाज्यमधत्तदम् देवाब्रवन्नेष्वायज्ञो याज्यमप्येवृणन्तिकारयन्ति ब्रह्मवादिना वदन्ति कस्मात् सत्यान्यानि हवीकृष्य यातया ममाज्यमिति प्राजापत्यमिलिप्रो यादयातया माहि देवाना छन्दागं देवेभ्योपाग्रामन्नवभागानि हव्यं वक्ष्यामैति देवे चतुर्वमधारयन् पुराणवाक्यायै याच्यायै देवतायै षट्कारायै चतुर्वन्दागस्येवीणादितान्यस्य देवता प्रीतानि देवेभ्यो हव्यं वहन्ति गिरसौमायि तवोत्तमास्वर्गं लोकमायन्दृशयो वास्तभ्यपायन्देवस्य पुराणां भोतगो षट्कं इन्द्राय ध्रियस्व बृहस्पतये ध्रियस्व विश्वेभ्यो देवेभ्यो ध्रियस्वे दशनाद्धिम कुर्वन् लग्नये ध्रियस्वे दो ध्रियदेष्टाकपालो मास्यायाञ्च पौर्णमास्याञ्च्युतो भवति सुवर्गस्य लोकस्याभिजित्यैतम ुपरिष्टादभ्य श्रुतं कृत्यस्वत्वासयुतं लोकयच्छ्रुतकोहविरनभिकारितमभिकार्यो त्वात्रयै नृत्यमै यद्येकं गोपालं नश्येते गोमासः संवत्सरस्या न वेदस्यादथैर्यमानप्रमीय नयद्वेनश्येताङ्गो मासौ संवत्सरस्या न भ्यामेवास्मै भेषलिङ्गत्या वा पृथिव्य एकवारो भवत्यनयोर्वा एतन्नश्चयन्नश्चनयोरेवैनप्रतिष्ठिते देवस्य तासविदः प्रथमो बाहुभ्यामित्याहेत्यमेव तत् सकृद्रुव्याय प्रहरिष्यन् एतावदेवे पृथिवी यावदेवे दृष्टस्य एतावद एव भ्राद्रव्यर्भजति तस्माम् निर्भजन्ति त्रिहरित्रयमे लोकायेभ्य एव मोरञ्जनैवत्यादि खादे यदी प्रजापतिनायेन संविदामा प्रतिष्ठायै खनतिष्ठाङ्गमयति ैव रूपेभक्म् पशुभिक्कुरीशवन्दत्युत्तरम् परिग्राहम् परिगृह्णात्येतावदेवरम् परिग्राहम् परिगृह्णादि क्रोरमिवेषाञ्चैरासादित्या भो वैरक्षो साधयति यज्ञस्य सन्दत्येयम् दृश्यात् सन्ध्यायच्छुज एव ब्रह्मवादिना वदन्तंशि प्रोक्षयेनापैब्रह्मणेति प्रोक्षति ब्रह्मणामेवैनान्तरिक्षायित्वाोक्षति क्रोरमिभवा एतत्करो शान्ति पुरस्ताप्रस्तरं गृह्णाति मुख्यमेव गृह्णाति प्रजापतिनायज्ञः सृणादि प्रजा वै बहिः पृथिवी वेदि प्रजा एव पृथिव्यां प्रतिष्ठापयत्यसृणादिजये दृष्ट्यं करोत्युत्तरं साधयति प्रजा वै बहिर्यजमानप्रस्तरो यजमानमेवा यजमानादुत्तरं कृतमेवैर लोकङ्गमयदित्रे धानक्त्यत्रय इमे लोकादेभ्य एवं भावगङ्गजमानस्य स्यादुपरि वप्रहरत्युपरि बहिः सुवर्गो लोको नियच्छति वृष्टिमेवास्मियच्छति ना चक्रं प्रहरेक्रं प्रहरे दत्या धारुण्यो नाशुका ेवर्गं लोकुमानेवास्येन यो युप्यजमानस्य गोपीथाय ब्रह्मवादिनो वदन्ति यज्ञस्य यजमान इति प्रस्तरस्य प्रो याद्यप्रस्तरमाहवनीये प्रहर त्यगाह यत् ब्रूयादिगण्यङ्गमये निर्यजमानगोवर्गाल्लोकात्मजेत ब्रूया मानमेव स्वर्गल्लाकङ्गमयति ृणय्य देव गृहीतस्या त्यादित्येव आदधाय त्रिवाद्य प्रतिष्ठत्यै ब्रह्मादिनात्यावदीयान् स्यादि रिभुपतये स्वाहापदये स्वाहा भूतानां पदये स्वाहेति स्कन्नमनुमन्त्रयेत यज्ञस्यैव ददात्या भूयसेरिदेवता प्रीणादिजामिवा एतद्यज्ञस्य क्रियते तन्वञ्चो गुरोडाशा भुपागुंसु याजमन्तराय सत्यषामित्त्वाय स्वामि धनत्वा या तिरकासी न्द्रे देवाब्रमन्नात्यस्मा एतद्भाविधेयं प्रायच्छकृते बहिरु एषा वैरुद्रस्य दिक्सायामेवयति चित्रभक्तस्याप्यैपोर्वा आहुदेशरुत्राय रयत्वय पशोनपि दध्यातपुर्यजमानस्यादिहायपोर्वा आहुदे पशोनाङ्गवीचाय मनः पृथिव्या यज्ञमैच्छत्सकृतन्वक्रोदा वरुणौ गोरेवावमेश्वरोच्यते तदस्वी जन्मो बहूदगोरथन्तरं सह पृथिव्यत्या वामदेव्यं सहान्तरिक्षेणेत्याह पशो वै वामदेव्यं पशुनेव सहान्तरिक्षेणं बृहत्सह दिवेत्या वैरं वै बृहदिरामेव सह दिवो वक्वय धूता सप्तहोत्रा इत्याहोत्रा एव वक्पयधर्वहोदा धेन सहर्षभेत्याह मिथुनमेव वह्वय धोहोद भक्षः सखेत्याः सामपीथमेव वह्वय धर्महूता शो वायिणा पशुरेव वप्पयते छिद्रप्यते चतुष्मादशो मानवीत्याहमित्रावणीत्याहमित्रावरुणोनागोसमैरेतां ब्रह्मदेव कृतमपहूतमित्याह ब्रह्मैवा वह्प्यते दैव्याध्वर्यवभूता ष्या इत्याह देव पुरुष्यादेवोप्यते यिमं यज्ञममानयज्ञथानित्याह इत्याय जीव यजमानाय चादिषमाशा पृथिवी इत्याहत्या वा पृथिवी एवो वह्वयदे पूर्वजे अर्दावरी इत्याह पूर्वजे एते अर्दावी देवी देवपुत्रे इत्याह देवी एते देवपुत्रे भूतो यञ्जमान इत्यायजमानमेवो वह्वयदौ स्यान्देव इत्यायाम् भूतो भूय करण उपभूतो दिव्येधामनुपभूत इत्याह प्रजावा उत्तरादेव इत्या वशवो भूयाः विष्करण स्वर्गो लोको दिव्यन्धामेदमसीदमसीत्येव यस्य क्रियन्धामोपह्वयते विश्वमस्य प्रियमुपभूतमित्याहायते युणायमादत्ते काममेवात्मा पुशूनामादत्तेन यन्यः कामम् प्रीच्छति वाचस्पदये त्वा जमानस्या त्वा देवता देवताभिरेव यज्ञो सन्धन्वन्ति देवा अभिसमगच्छन्त कल्पदान्न इदमिति ब्रुवं वैन इदं भविष्यति यद्यायो वध्येत्रोपयेत्तद्यस्य यदुपजस्तृणीयादभिजयेदुपयत सर्गस्वायुगुर्यादवदायाभिकारयदग् सम्पद्यतेजमानप्रतिष्ठित्यै यत् यज्ञस्याभिविध्येदग्रेण परिहरति तीर्थेनैवस्य प्रविष्टभागो दन्तगोहितं देवानुविवायमाद्य वायु बृहस्पतये बृहस्पत्यम् वा स्यातिमारिष्यति चेदम् मन्त्रमपश्यत् सूर्यस्य त्वा दक्षुषा प्रतिपश्यामि नित्य प्रवीण हि सौर्य च क्षत्रिं जन हिलस्य स विभेत् प्रति गृह्णन्दं माहि गोषिष्यति देवस्य त्वा सविधः प्रसवेष् बाहुभ्याङ्गोष्णास्ताभ्यां प्रति गृह्णामीत्यप्रवीत् स्वभितृप्रसव देवेन ब्रह्मणा देवताभिप्रत्यगृह्णात् स्वविभेत् प्राश्नन्दम् माहि गोषिष्यतीत्यज्ञे स्वास्य न प्राश्नामीत्य प्रवीण्ण यज्ञे दास्यन्ति जनहिलस्य स विभेत् माहि गमशिष्यतेोदरम् किञ्चन हिनश्चिते ब्रह्मेष्ठो भव एतस्मादा प्राणाक्रामम् प्रासित्रम् राष्ट्रमा प्राणान् संशते मृतम् वै प्राणामृतमापप्राणानेव यथास्थानमुपे ब्रह्मा यत्र यस्याप्रतिष्ठेत्येवश्रुतो यत्रैवच्छति देवत्याहप्रसो ब्रह्मेत्यां बाहि ब्रह्मवादिनोदन्तेष्ठा देवता देवा इति छन्दा कोसीत् प्रोया द्यायित्रीं दृष्टभञ्जीं च ब्राह्मणा वै छन्दा कोसीदि तानेव दद्य देवानां वा इष्टा देवतासन्नथाज्ञोज्ज्वलत्तं देवा आहुतीभिर्नो याजेष्वन्द्रविन्दनो एत यज्ञस्याशिषमुया एतद्या वा पृथिवी भद्रम भोलिच्चेतदमेवासुरं यज्ञस्यासिषङ्गमये निज्या वा पृथिवी भद्रम भोलित्यैव प्रोयार्जयमानमेव यज्ञस्यासिषङ्गमयत्यात्मसोक्तमाकमुतनोपाकमित्याहेतमरा स्मे दिवो वैददाहोपश्युतो पृथिव्यार्त्या वा पृथिव्यापश्योस्मिन् यज्ञेमानत्या वा पृथिवीस्ता ूयात्सुपावसानाच्यवसाना चेति प्रमायुगो या हि प्रमीयते धे मामुपावस्येव प्रूयामाशास्तेन प्रमायुगोभवयो राज्यज्ञास्ता हरिधा मेधिवा वैतदा ज्ञस्याशीर्गच्छेदाशा सेयं निजमानोसा विद्याः निर्ति श्रीवीरको सुवर्गल् लोकङ्गमहित्यायुराशास्ते सु सुप्रजास्तमाशा शैत्याशिषमेवैतामाशास्ते सुजात वनस्यामाशा शैत्याः प्राणा वैस जाता प्राणादेवनान् वरे दे देवेभ्यो वनते वयमन्येन्मानुषा इत्याहाभ्यो वैदाय वर नामश्चेदम् च नमो देवेभ्य इत्याहयाश्चैव देवताय जियाश्च न ताभ्य एवोभयेभ्यो देवा वै यज्ञस्य स्वगा कर्तारन्नाविन्दन्ते शून्यं वारः सत्यमप्रवण्यमन्नो यज्ञवाप्रामणोक्तो नो या देवामे यज्ञस्या नो यदे शून्यमेव तस्य वारः सत्यं यज्ञस्याशीर्गच्छत्यै प्रजा ्राह्मणाय नापकुरे धननिहन्यान्नोहितं भो जुदच्छय्या रावृणेम इत्याह यज्ञमेव तत् स्वकाकरोदच्छय्या रावृणेम इत्याह शून्यमेव समर्थयति पातुं यज्ञाय पातु यज्ञपदय इत्याहादिशमेवैतामाशास्ते एवष्टार्य चरेद एव हितं दृष्टा रूपाणि विकरोतिपदिष्टामि वा एतद्यज्ञस्य क्रियते यदा चैनप्रयाजा इत्यङ्गाच्यैन पत्नीर्जमनोच्यपत्नीजानामिताय धिरामित्राजामितय वृ प्राय नो भे यज्ञप्रयाजा इत्यङ्गे चत्वारपत्नीं याजासमिष्टमं वन्दरेव ङ्क्तिमनोद्यदेवभूतमागो अश्वागो अग्नेरथीरिव निता पूर्वः सदः विदिष्टरः श्रद्विश्वार्याकृधिः सस्वनवाहुता रता वा यज्ञः मूर्धा कवीरयीणाम् तन्नेभवो यथा न नेदीयो यज्ञमङ्गिरः तस्मै नो नमभिज्ञाचाविरूपनित्य कृष्णेष्टुम्पाकचक्षसः गोषस्थरामहे मानो देवारामित्स्नादीनि मानसमस्य परित्वेषः ऊर्मिर्ननाभमावधी नमस्ते नो दिसे गृणन्ति देवकृष्टयः अमैरवित्रमर्दया कुवित्सु नागविष्ठयज्ञे संवेशितोरयिम् पुरुगृदरुणसृति नाना अस्मिन्महाधने परावर्ग्भारभृत्यथा संवर्गकोसगो रयुञ्जया अन्यमस्मद्भिया इयमग्ने सुकृदुक्षुणाः वर्धा नो अमवच्छवः यस्यादुषण्श्विनश्य मे मधुर्मखस्य वा रङ्गेरुधावधिरस्याधिसम्वतो वरागो अभ्यादरा इत्रा पुरा यहामस्मित्मा पित अथा देसुम नीमहे युग्रीशल्य दिग्शो नवगुँसकोजिथ सखा संवस्मिश्विष्ठाज्वाश्वाध्य से नाम सोन ेदसोमाभूषणेमौ देवौ पुषन्द स्वाहवामह वुषन्दस्वमि धीमहिषन् आवह पितरो नेमप्रचिगितो मनीषात्मोधा देवेन्द्रा भिः संविधानो नद्या वा पृथिवी आतदन्था तस्मैतैन्द्रहविषामैणा अग्निष्वात्ता पितर एह गच्छद सदसद सुप्रणीतयः र्वाहव्याजक्रमानुषध्वम् आहम् इहागमिष्ठाः पितरः सोम्यासोराहेषु इदम् पितृभ्यान्मास्तये पूर्वासय उपरासयीयु ये पार्थिवैरजस्याविषत्ता एव नूनकुंसु वृजनादिषु यथा न पितरप्रासकृत्नामाभिन्दन्तारुणैरपौन्वाहनपितरोता वृतः देवेभ्यश्च पितृभ्यः जातभेदो वा रवेणि कृत्वा राधाभ्यः स्वधयादे क्षणध्यत्वम् देव प्रेता हवीषि आदरे योग्ये यमो अङ्गिरोभिर्बृहस्पतिर्वावृधानः च देवावृथिर्ये च देवान्स्वाहान्ये स्मृथयान्ये मदन्तिः संविधानः आत्त्वान्द्राः कविशस्तावहम् के नाराजनः विषामादयस्वभिरागहिभिम वै रूपैरिहमादयस्व समतो ण्डे षष्ठः प्रश्च समाप्तः